अथ द्विचत्वारिंशम् दशकम् कदापि जन्मर्क्ष दिने तव प्रभो निमन्त्रित ज्ञाति वधू महीसुरा महानसस्त्वम् सविधे निधायसा सा महानसादौ ववृते व्रजेश्वरी ततो भवत्राण नियुक्त बालक प्रभीति सङ्क्रन्दन सङ्कुलारवैः विमिश्रमश्राविभवत् समीपतः परिस्फुटद्दारु चटच्चटारवः चता तदस्तदा कर्मन सम्भ्रमश्रमप्रकम्पि वक्षो प्रजाङ्गनाः भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुण दारुमध्यदम् दारु शिशोरहो किम् किमभूदिति द्रुतम् भूसुराः लोक्य यशोदयाधृतलाद्रोचना कस्को नु कौतस्कुत विस्मो विशंकटम यटित न कारण कि हेति स्थिता दीक्षका पयोधराथिन प्ररोदने लोलपदाम्बुजाहतम् मया मया दृष्टमनो विपर्यगादितीशते पालक बालका जगुः भिया तदा किञ्चिदजानतामिदम् कुमारकाणामति दुर्घटम् वचः भवत्प्रभावा विदुरैरितीरितम् मनागि वा शङ्क्यत दृष्टपूतनैः प्रवालताम्रम् किमिदम् पदम् क्षतम् सरोजरम्यौ नु करौ विरोजितौ इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गना जनाः अये सुतम् देहि जगत्पतेः कृपातरङ्गपातात् परिपातमध्यमे इति स्म सङ्गृह्य पिता त्वदङ्गकम् मुहुर्म् मुहुश्लिष्यति अनो निलीनः किल हन्तुमागतः सुरारिदेवम् भवता विहिंसितः रजोऽपि नो दृष्टममुष्य तत् कथम् स शुद्धसत्त्वे त्वयि लीनवान् ध्रुवम् प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्बित मङ्गलाशिषः व्रजम् निजैर्बाल्यरसैर्विमोहयन् मरुत्पुराधीश रुजाम जहीहि मे इति द्विचत्वारिंशम् दशकम्